नाघेन्द्र हराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय धिं धिं गिं धिन्द्र तक तर्क नागेन्द्र हराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय नित्याय शुद्धाय दिगम्बराय तस्मै शिवराय नमः शिवाय तस्मै नकाराय नमः शिवाय मन्दकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथ महेश्वराय मन्दार तस्मै मकाराय नमः तस्मै Om Shiva Om Namah Shiva नाशकार श्रीनीलकण्ठाय वृषभ तस्मै शिकाराय नमः शिवा तस्मै शिकाराय नमः शिवा ॐ नमः शिवा शिष्टकुम्भोद्भव गौतमारी मुनीन्द्रदेवार्जितशेखराय चन्द्रार्कवैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय तस्मै वकाराय नमः शिवाय ॐ नमः शिवाय स्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय यज्ञस्वरूपाय जटाधराय पिनाकहस्ताय जटाधराय दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय तस्मै यकाराय नमः शिवाय a uh...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 dare nare nai dare ga madoma gama tani dare ni tcha